सह नावतो सह न भुनक्तो सह वीर्यम् करवामहै तेजसि नापदेतमस्तु माविद्विजामहै ओम् शान्तिः शान्तिः शान्तिः अम्भस्य वारे भुवनस्य मध्ये नागस्य वृष्टे महता महीराय शुक्रेण ज्ञदेगम् विलमनप्रविष्टप्रजापतिष्ठरविगर्भे अन्तः यस्मिन् निरगम् सञ्चवै सर्वै यस्मिन् देवादिविश्वेदो तदेव भूतम् तदुभव्यमाहितम् तदक्षरे परमेऽप्यन् येनातङ्खम् च दिवम् महीम् चेनादित्यस्तपदितेजसाभ्याजसा च मुद्रे कवयोभयम् त्रियदक्षरे परमे प्रजाप्रसूता रकदप्रसूतीतोम्या यदोनिदेव पुरुषा असोगश्च वेदभूतानि चराचराणि अतः परन्नान्य महान्तरम् यदेकमव्यक्तमनन्तरूपम् महतो पुराणन्तमतः परस्पाद तदेवत्तम् तदत्यमाहस्तदेव तदे ब्रह्मपरमम् कवीनाम् बहुधा राजमानम् विश्वम् विभर्ति पुवनश्च नाभिः यस्तत्सो नियस्त चन्द्रमाक्रमुदन् तद्ब्रह्मदावस्वप्रजापतिः सर्वे निवे करामहोर्गाष्ठाहोरा संवत्सरश्च कल्पन्ता सापृे उभे गिमे अन्धे क्रमशोऽशुभः नैनमोर्भन्नर्नमध्ये परिचक्रभदे कश्चन तस्य नाम चिकश्च अभ्यस्तम्भोदाभिरण्यगर्भ इत्यष्टौ एक हि देव प्रतिशोधर्भा पूर्वोऽभिजातश्च बुकर्भे अन्तः स विराजमानस्य जनिष्यमानप्रत्यम् त्यक्षते विश्वतोमुखः विश्वरश्च कृत विश्वदस्पादम् वदत्रये जनयम् देव एकः मेनस्तत्पश्चन् विश्व भानि विद्वार्य च विश्वम् भवत्येकनीलम् यस्मिन् सन्त्य मुतन्म विद्वाङ्गम् सर्वनामनिहितम् गुहादो श्रीपदानि गुहाधियत्तद्वैतपिता सनाबन्धत्य भुवनानि विश्वाः यत्र देवामृतमानसाना श्रीये धामान्यभेदयन्त परिद्या वा प्रतिपीडन्ति सद्यः परिलवकान् परिशुवः तिरस्तरन्तम् विलम् इदस्य परेत्य लोकान् परेत्य सर्वा प्रति प्रजापदप्रदमजाकृतस्यात्मनात्मानमविलम् बभो वा सरलस्पदिमद्भुतम् भियमिन्दस्य काम्यम् मेधामयाशिलम् उद्देशोगश्चमक्यमालहीवनम् च निजोतिष मानाहिकंश्यादवेमश्चम् पुरुषम् जगत् अविर्भहि श्रिया मादय पुरुषस्य विद्मदः सस्य महादेवस्य धीमहि पन्नारुद्रप्रचोदयात् अत्पुरुषाय विद्महे महादेवाय धीमहि पन्नारुद्रप्रचोदयात् तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि पन्नारुन्दिप्रचोदयात् तत्पुरुषाय विद्महे तक्रतुण्डाय धीमहि तन्ना नन्द्यप्रचोदयात् तत्पुरुषाय विद्महे महासेनाय धीमहि तन्नषण्मुखप्रचोदयात् तत्पुरुषाय विद्महे सुवर्णपक्षाय धीमहि तन्ना गरुडप्रचोदयात् वेदात्मनाय विद्महे हिरण्यगर्भाय तन्ना ब्रह्मप्रचोदयाय नारायणाय विद्महे वासुदेवाय तन्नो विष्णप्रचोदयात् अर्जनकाल विद्महे ज्येष्णधीमहि तन्नो लालिकुम्भप्रचोदयात् विद्महे महद्विति कदा धीमहि तन्न आदित्यप्रचोदयात् ऐष्पादनाय विद्महे लालीलाय धीमहि तन्ना अग्नप्रचोदयात् आप्याजनाय विद्महे गण्यकुमारि धीमहे तन्नादुर्गप्रचोदयात् शास्त्रपरमा देवी शतमूला शताङ्कुरा सर्वकम् हरतु मे पापन्तोर्वानु स्वप्नी काण्डाः काण्डात् प्रदोहन्ति एवानो दोर्भे प्रदनु नहस्रेण शतेन च व्याशतेन प्रदनोटि नहस्रेण अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरा शिरसाधारेष्यामिरक्रमाहम् पदे पदे भूमिन्धेनुर्धरणी लोकधारिणी उद्धृतादिवरागेण किष्णेन सदबाहुना मृत्तिगे हनमे पापयन्मयानुकतम् कृतम् मृत्तिगे ब्रह्मदत्तादिकाश्यमेणाभिमङ्कृता मृत्तिगे देहि मे पुष्टिन्वयि सर्वम् सर्वम् तन्मेनके अजाहतेन पापेन कत्साविपरमाङ्गलिम् हरन्द्रभयामहे तदोरायङ्के मगवन्मोदरे विद्वजो अनुमधो सस्तितापिषत्वजलपुत्रः अनुमधो मजे घृन्द्रपुरळे तुलस्त्वभयङ्करः स्वस्ति न इन्द्रो वृद्धश्रवः स्वस्ति न पूजा विश्वमेधाः स्वस्मिनस्ताक्षरिष्ट्रे स्वस्ति मास्वर्दधातु आपालप्रभर् माश्रिक्षरुभागम् पतिमानानि देवो ब्रह्मरे ज्ञानम् प्रथमम् पुनर्तात् मदस्वरिजो सोनापतिभवानिक्षरा निवेदने धाःत्वारान्धर्षान्नित्यपुष्टान्तुलेषु ईश्वरेकम् सर्वभूतानान्ता विहोपक्मनेयम् श्रेर्मे भजतो अलक्ष्मेर्मे नश्यतो विष्णुमुखावै देवाश्नन्दोभिरिमान्वाकारणमहय्यमभ्यजयन् महागम्यन् त्वभावश्रोणचैदम् अयच्छदो तस्य न मघवागणो नभन्त पात्मानय्योन्द्वेष्टेण हि ब्रह्मणस्पदे कक्षेवम् शरीर यज्ञतफलम् कुचीरम् तस्मिन्द्वेप्ते चरणम् पवित्रम् पितरम् पुराण्येन भूतस्तर चतुष्कृतानि तेन पवित्रेण सिद्धेण भूतादिपात्मानमलादिन्तरे सजोधामम् स्वमित्रा नस्मै भोजोयम् दुष्मः योमशिवदमोरस्तस्य भाजेहणः पादलः तस्मारङ्गमारुणम् प्रपद्ये वियाचितः यन्मया भुक्तमसाधूनः पापेण प्रतिग्रहः यन्मय मनसा वाचा कर्मणा वाचकृतम् कथम् कर्ण इन्द्रवरुणाजपरम् तु पुनः पुनः महेन्द्राय नमो वरुणाय नम नमो वारुण्येन तदपगच्छनात् अद्यासुनादेवग्रात्परिग्रहात् हन्ना वरुणो राजा पाहि सोऽहमो विरजो निर्मुक्तोमुक्त नागस्य पृष्ठमानप्यगच्छदलोकताम् यश्चात्सवर्णस्य पुरात्मकवर्षणः इमम् मे गङ्गे यमुनेतत्सेत्सोमकंसजनामृष्णया असोमया ऋद्रम् च सत्यम् चाभेतोभ्यजायत ततो रात्रिरजाय समुद्रवान्नवः समुद्रानम् नवात्सरोयत वहोरात्राणि पिडतो महे सौम्याचन्दमसो धाता यथा पूर्वमकल्पयत् दे। पृथिवीम् चान्तरिक्षमसोऽ सुमहव्यागुमृजस्तवान्तरिक्षे विरोदसीस्तो वरुणः पुरात्मकवर्षणः पुनन्तमसवः पुरातवरुणः पुरात्मकवर्षणः एष भूतस्य मध्ये भुवनस्य गोक्ता एष पुण्यगताल्लोकानेषरन्मयम् ृथिव्यांसवः स न श्रु वस्त्रगुंसिराधे आञ्ज्वल निर्ज्योतिरहमस्मि ज्यो दक्षल निर्ब्रह्माहमस्मि योहमस्मि ब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहम्मान्त्यस्वाहा भ्रूढः गुरुधर्मकः वरुणोपामखमर्षिणस्तस्मापात्रमुच्यते प्रजाभूमिदयस्त्रप्रथमे विधर्मन् प्रजाभुवनस्य राजाः जातवेदेव निवेदः स्तनः परिषदुर्गाय विश्वानावय सन्धुन्दविधात्यग्निः क्षेपुलानपुरे भवायतनया विश्वानिनो दुर्गः जादवे दस्यन्तम् नृता नाभरे नागस्य वृष्टमुदयन्ता भूरन्नमग्ने पृथिव्ये स्वाहा भुवोन्नम् पाजवेन्तरिक्षा स्वा सुवरन्नमादित्यानि दिवे स्वाहा नमो देवेभ्यस्मृताभ्यो भोद्भुवस्तु वरन्नमा भोरग्नरे पृथिव्ये स्वाहा भुवो वायवे अन्तरिक्षाय स्वाहा ध्वराधित्यादि दिवे स्वाहा भोद्भुवस्तु नमो देवेभ्य भोद्भुवस्तु वराग्नो भोरग्नरे च दिव्ये च महतेज स्वाहा भो वाजवे चान्तरिक्षाय महदेज स्वाहा धुवरादित्यादिरवेय महदेज स्वाहा भुवस्व चन्द्रमुत्रेभ्य महतेज स्वाहा नमो देवेभ्यः भुवस्वहिनो रग्नवेदजय स्वाहा वाहिनो विश्ववेदजय स्वाहा यज्ञम् वाहि भावह पाहि सर्वम् वाहि स्वाहा वाहिनाव्यन्दाभ्यच्छन्दानस्यान्वेष स जागम् सित्यः पुरो परिषविन्द्रान्द्रयाभ्य ्रह्मणे धारणम् धारयिता भो यादम् कर्णय श्रुतम्ब्रह्म मामुष्य वा हृदन्तवः सत्यन्तवः श्रुतन्तवः शान्तबोधमस्तवः शमस्तबोधानन्दबोधयज्ञन्तः सुब्रह्मैतदुवा यथा वृक्षस्य दूरात् ग्रन्थो वात्येवम् पुरुण्यस्य दूरात् ग्रन्थो वा लेखकान् कर्ते महितामह्यामे यद्यिमेहवाविश्वयिष्यामि कर्तम् पदिष्यामि एवमतादात्मान जुगुप्तेः अनोरणीरान् महतो महीरान्थाश्यति वेदसो गोधातु प्रसादान् महिमानमीजम् यन्निहिता सप्त सप्ता अदश्च मुद्रा गिरणश्च सर्वे छन्दसिन्धवः सर्वरूपाः अदश्च विश्वावोढयोः श्रयणे प्रभूतश्चिक्षत्यन्तरात्मा ब्रह्मादेवानाम् पदमेष्कबेनामितविप्राणाम् महि मृगाणाम् शेणोगच्छ्रागस्वरिणानागम् स्वामपवित्रवत्ते दरे भन्ने अजामेकान् लोहितशुक्लकृष्णाम् वक्वीम् प्रजान् जनयन् देकम् स्वरूपाम् अजोक्तेको विलमाणो निषेतेन भोक्तभोगामजो स्वाहा कृतम् विषभवक्ष्य हव्याम् समुद्राजो भागम् उदान भागं सुनाथमर्तमानस्य नाम जिप्त्वा देवाना मुदुरस्य नाभिः वयन्नाप्रवाहृहात्मनिज्ञेधारणामानव उपब्रह्मादनवत्सत्यमानत्रे चत्वारि शृङ्गाद्रजास्यमानात्महस्ता महादेव मध्यागमाविवेशम् पणिभिर्गुप्यमाणङ्गविरेवासोन्वविन्दन् न्देनादेक देवाना यो देवानाम् प्रथमम् पुरस्ताद्विष्टो देवः सुभया स्मृत्यायोगश्च न कर्मणा न प्रजाधने न त्यागेनैके तत्त्वशन्ते वेदान्तज्ञानसुल्यन्न्यासयोगाद्ध ब्रह्मलोगे पराहन्तकाले पदामृदा हरिमच्यन्द्रे रक्रम् विवाहम् परमेश्वभूतपुण्डलेकम् पुनमध्यलग्रस्थम् तत्रापि लगनम् गगनम्व्यम् यो वेदा वेदान्ते च प्रतिष्ठितः तस्य प्रगदलेन स महेश्वरः देवम् विश्वम् विश्वजम्भुवम् विश्वम् नारायणम् देवमक्षरम् परमम् पदम् विश्वनपरमहा नियत्यम् विश्वन्नारायण गम्भरिम् विश्वमेवेदम् वरुढस्तद्विष्टमुपे त्मेश्वरम् शाश्वतगुम् शिवम् नारायणम् महाज्ञानम् विश्वात्मानम् परायणम् नारायणपरो ज्योज आत्मा नारायणः परः नारायणपरम् ब्रह्मदत्तम् नारायणः परः नारायणपरो ध्याताध्यानम् नारायणः परः यज्ञ सर्वम् दृश्यते श्रो यदेव अनन्तरपहेतर सर्वम् व्याप्य नारायणश्चिलः अनन्तमव्ययम् कविकुम् समग्रे अन्तम् विश्वजम्भुरम् पद्मगोजपदे काचकम् हृदयम्भ्यामुपरि ज्वालबालाकुलम् भाते विश्वस्यायतनम् महते शन्दनम् शिलाभिस्तुलम् प्रत्यागोषसन्निभम् तस्यान्ते त्रिजनम् तस्मिन् सर्वम् प्रतिष्ठितम् स्तकः तस्य मध्ये वन्यतिकारीवार्जोगमत्तम् तस्याः शिखायामध्ये परमात्मा व्यवस्थिरः स ब्रह्मसति वस्तास्तेन्द्रोत्र आदितोमण्डलम् तपदितस्तृतामण्डनकम् दरितान् लोको भगवेडवेतस्मिन् मण्डलेतानि रामानि सदा लोको भगवेडवेदस्मिन् मण्डले पुरुषस्तारे लोकम् विपेदुरावन्दनकु श्रेतरान् लोकश्रेधात्रय विद्यानपतिरेणोगम् तदादित्येहिरण्मयः पुरुषः आदित्य वीरे जगोजोपलन्यधश्चक्षुश्रोत्रमात्मानो मन्यम् मृत्युसत्यङ्गम् तत्सत्यमन्नमतो विष्प कलमस्तम्भब्रह्मैतरमुदलेष पुरुषेष भूता नाम निर्ब्रह्मणः सायिज्यगम् स लोकतामाप्नो एतासामेव देवता नागुंसायिज्यगम् दाक्षिदागम् समानलोकतामाप्नो निधनपदः निधनपदान्त्रिकाय नमः ओद्धाय नमः ओद्भलिङ्गाय नमः हिरण्याय नमः हिरण्यलिङ्गाय नमः सुवर्णाय नमः नमः दिव्याय नमः दिव्यलिङ्गाय नमः भवाय नमः भवलिङ्गाय नमः शर्वायणः सर्वलिङ्गायनः शिवाय नमः शिवलिङ्गाय नमः ज्वलायनः जललिङ्गायनः आत्मायणः आत्मलिङ्गायनः परमायणः परमलिङ्गाय नमः एतत्सोमस्य सो यस्य सर्वलिङ्गज्ञ स्थापयति पाणिमन्त्रम् पवित्रम् सद्यो जातम् प्रपद्यामि सद्यो जातायवे नमो नमः भवे भवे नाति भवे भव स्वमः भवोद्भवाय नमः वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकर्णाय नमो बलविकर्णाय नमो बलाय नमो बलप्रभसनाय नमो बलान्मनाय नमः घोरेभ्यो घोरेभ्यो घोरघोरवेभ्यः सर्वेभ्यः सर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः सत्पुरुषाय विद्महे महादेवाय धीमहि कन्नारुद्रप्रचोदया च ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपजर्ब्रह्मणोऽधिपजर्ब्रह्मा शिवामे अस्तु सदा शिवा हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपदयम् भिगापदयपुमापदये पशुपदये नमो नमः सत्यम् परम् ब्रह्मपुरुषम् कृष्णपिङ्गलम् और्ध्ववेदम् विलोभाक्षम् विश्वरूपाय वै नो नमः सर्वा वैरुद्रस्तस्मै रुद्राय नमो अस्तु पुरुषो वैरुद्रः नमो नमः इष्टम् भुवनम् भुवनम् चित्रम् बहुधा जातम् जायमानम् जगतेस्तस्मै रुद्राजनमास्तु कर्तृद्राय प्रजेतृष्टमानि भोजे वसन्तमगम्भते सर्वाख्यैरुद्रस्तस्मै रुद्राजनमास्तु यस्य वैकम् गत्यग्निहाणीभव नित्येव प्रतिक्षित्ये देवा पिता ना, माता मेदनी महता महेदा महीत्रेगा ये जगदे वृद्धे बहुला विश्वा भूता कदमाया तमते वेष्ठ आपो मा इदगम् सर्वम् विश्वा भूतान्यावः प्राणाव चापोन्नमाव नवापः सम्राणाव विराणाव स्वराणावश्चन्दायस्या ज्योगे गश्याभोगजोगश्यावः सत्यवापः सर्वादेभुवस्वराभव आपः पुनन्द पृथिवीयम् पृथिवे भूता पुनातु माम् पुनन्द ब्रह्मणः पच ब्रह्म भूता पुनातुमाम् यगच्छष्टमभाजयत्वा दुस्तरितम् मम सर्वम् पुनन्पो हृताम् च परिग्रहग्रस्वाहा अर्गश्च वामन्यष्टमन्यपदष्टमन्य आदेभ्यो रक्षन्ताम् इदन्धापापकारिषम् मनसावाचाहस्ताभ्याम् अभ्यामुदरेण निष्णा आहस्तदवलम्पतो यत्किञ्चिदवेदम् मयि इदमहम् मामहतयोनौ सौर्ये ज्योतिर्जुहाविश्वाः सूर्यश्च महामन्यश्च मन्यवदरश्च मन्यकृतेभ्यः आदेभ्यो रक्षन्तापापमकायिषम् मनसामाजाहस्ताभ्याम् पद्भ्यामुदरेण शिश्नास्तनव लुम्पसो यत्किञ्चदऋतम् मयेत् इदमहम् मामहदयोनौ सूर्ये ज्यौति होमि स्वाह ओमित्यैवाक्षरम् ब्रह्म अग्निर्देवता ब्रह्म इत्यारिढम् सायत्रम् छन्दम् परमात्मम् स्वरूपम् सायुज्यम् विनियोगम् आयादुवरदा देवी अक्षरम् ब्रह्म संविधम् गायत्रीयम् छन्ददा मादेजम् ब्रह्मऋ मे कुरुते पापम् तन्नात् खरुदिशते यद्राद्र्याः कुरु ते पापम् तद्राद्रियाः प्रथिमुच्यते सर्ववर्णे महादेवी सन्ध्याविद्ये सरस्पति ओयोभ्रायोगे श्वमज विश्वाय सर्वमजर्वाय ऋ गायत्री मावाह यामि गायत्रे मावाहयामि चे मावाह यामि छन्द हे नावाह यामि श्रियमावाहयामि गायत्र्या गायत्रि छन्दा विश्वामित्रविस्सविता ुवः ओम् महः ओम् जनः ओम् तपः ओम् सत्यम् ओम् तत्सपितुर्वरेण्यम् भग्वो देवस्य धीमहि तिरोप्रचोदयात् ज्योतीरसोदम् ब्रह्मस्वरो उत्तमेऽधिकरे जाते भूम्याम् पर्वतमूर्धने ब्राह्मणेभ्यो ज्ञाता गच्छदे यथा सुखम् वरदा वेदमाता प्रचोदयन्ति पवनेपि जाता आयुः पृथिव्याम् द्रविणम् ब्रह्मवत्सम् वक्यम् दत्त्वा ौर्यादित्यप्रभावात्यक्षरम् मधुक्षरम् सत्यम् वेदेव मधुमे तुमाम् ब्रह्ममेव मधुमे तुमाम् यास्ते सोम प्रजावत्सोऽभिधोऽहम् सो दुष्पप्नहन्द्रः यास्ते सोम प्राणागस्ताञ्जहोमि ऋतुवर्णमयाजम् ब्राह्मणाय दध्याय ब्रह्महत्याम् वा एते घ्नन्ति हे ब्राह्मणान् ऋतुवर्णम् पृथन्ति ते सोमम् प्राप्नुवन्ति आसहस्रात्त्वन्दिम् पुनन्ते ओ ब्रह्ममेधया मधुमेधयाः ब्रह्ममेव मधुमेधयाः अद्यानो देवसविद प्रजावत्सामे सौभगम् परा दिगुन्धु विश्वादेवित मधुवाता ्रूणहत्याम् बाले जयघ्नन्ते ब्राह्मणा सुपर्णम् पठन्ति ते धम् प्राप्नुवन्ति आसहस्रात् पङ्क्तिम् पुनन्ते ओ ब्रह्ममेधवाः मधुमेधवाः ब्रह्ममेव मधुमेधवाः ्रह्मा देवानाम् परवेष्टाणागस्वर्मः पवित्रमत्यंसश्चिषद्वदन्तरिक्षसध्वोतासवन्ति धवितो अन्तर्हिता मनसा भूयमानाः धृतस्य धारा अभिजागरे मे हिरण्यो वेदो मध्याम् तस्मिन् सुपर्णो मधुगत्कुलाय भजन्नास्ते मधुदेवता सप्तदीरे स्वधाना मृतस्य धाराः यन्तु सुपन्नमयाजिदम् ब्राह्मणाय दद्यात् वीरहत्याम्बारे ते गृह्नन्ते ्राह्मणा चतुवर्णम् पठन्ति हे सोमम् प्राप्नुवन्ति आ सहस्रात् पङ्क्तिम् पुनन्ते ओ मेधादेवे ऋधमाना विश्वाजे भद्रा तु मनस्यमाला त्वजायक्ता ऋतमाना दुरक्ता गृहकृतसेतेरः प्रजायत्तवचने वेद्वया तया जोस्वीण मेधा मजिंद्र दु मेधा देवी वनस्पति मेधा मे अश्विनाभा सत्ता पुष्क असरा मेधागन सर्वेणु नयन देधा ननस्पति सा मह मेधाध्युता मेधातुलभिर्विश्वपाधिरन्यवर्नाजगीरगम्या ओर्जस्व देवयता विन्ममानाथामाहम् मेधातु प्रत्येका युषन्ता मयि मेधाम् मयि मेधा मेध प्रजाम् मयि यज्ञस्तेजो दधातु मयि मेधाम् मयि मेध प्रजाम् मयिन्द्रयन्द्रयन् दधातु मयि मेधाम् मयि मेध पन्नम् वाचपदेवाभिनश्चीराम् जताश्च नेपदे परम् वत्यापदे स्वैतपादय चक्षुष्पदे सन्मजयते ब्रवेमानः प्रजागम्भे मोदवीरान् बालम् राणम् वनधान् बालभामहे प्रजापरि जुवनस्य गोपाः सदा मत्यास्त्रायताम् पात्रगुहदाम् जावाच नाम अमुत्रभो यातजयद्यमस्य मृगस्पदे अभिरस्तेन पुञ्जः प्रत्यो हतामुश्लिनामुत्यमस्माद्देवानाभग्नेभिडजासनेभिः हरिणं हरम् तेवा विश्वस्तेषाम् विक्रमस्म शङ्के रङ्गमिन्धानोगवसने महम् उभयोः लोकयो विद्वाजमत्यन्तराम्यहम् भगम् मान मुक्षन्तमुतमानमुक्षितम् मानावजे पितरम् मतमातरम् प्रियामानस्तनवो रुद्रवीर्ढः युषमानो गोमानो एनातोपहेलविष्पन्तो नवसा विधेमते प्रजापतेन्या विश्वा जातानिपरिता बभूव यत्कामास्ते जुगुमस्तन्नास्तु वयज्ञस्यपदयोगीनाम्पृतः वशी पुरगे पुनः स्वस्थिताभयङ्करः शम्बकम् यजामहे तु सन्धिम् पुष्बद्धान् मृत्योन्मुखी न मामृता एतेन हस्तमैरम्पाशामृत्यो मृत्याय हन्तस्य माल्या सर्पा नवयजामहे मर्त्यवे स्वाहा मत्यवे स्वाहा देवगतस्येन स मैलामति मनश्येदस्य वेदनमधिवाहा वेदनमधिवाहा आत्मगतस्य वेदनमधिस्वाहाकृतस्येन वेदनमधिस्वाहातस्य वेदनमधिस्वाहा यद्दिवाजनक्रञ्जयेनस्य कर्मणस्य वेदनमधिस्वाहा यत् स्वगन्धश्रजानश्च कर्मणस्य वेदनमधिवाहा यच्छुत्तश्चाक्रष्टेनश्च क्रमदस्या व्यजनमधि स्वाहा यद्विद्वागुम् षष्टाविद्वागुम् षष्ठेनश्च क्रमदस्या वेजनमधि स्वाहा व्यजनमधि स्वाहा यद्गो देवाश्च क्रमजित्वया गुरुमनसो वा त्वयते देवनम् अनावायो नस्मिन् निधेन स्वाहा कामो कामो गिणेन् कामः करो जनाहङ्गरो विकामः कर्ता नाहङ्कर्ता कामः कारयिताहङ्कारयिता एणदे कामकामाय स्वाहा मन्यलकारिणेऽन्नमो नमः मन्यलकारिणेन्मन्यः करो जनाहङ्गरो मन्यः कर्ता नाहङ्कर्ता मन्यः कारयिता नाहङ्कारयिता एणदे मन्य मन्य वय स्वाहा तिराञ्जहोमि समिष्टाम् गर्धाते रमन्त स्वाहा गावो हिरण्यम् धनपन्नपाणगम् सर्वे रागशिले स्वाहा श्रियम् च लक्ष्मीम् च पुष्ट्यम् च कैर्त्यम् चारुण्यताम् ब्रह्मण्यम् बहुपुत्रताम् श्रद्धा मेधे प्रजाः सन्ददात स्वाहा तिलाकृष्णास्तिला इलाः पुरन्तु मे पापय्यक्किञ्चिद्विदम् मय स्वाहा चोरस्यान्नम् नमः श्राद्धम् ब्रह्म गुरुतल्पकः गोस्त्यैजकम् सुरापानम् भ्रूणहत्यादिजाधाद्यकम् समयन्त स्वाहा श्रेष्ठलक्ष्मीश्च पुट्येश्वत्यञ्जाताम् लघुभण्यम् बहुपुत्तदा श्रद्धा मेधे प्रज्ञादजादवेदः सन्ददाद स्वाहा प्राणाबाणव्यानोदानसमाना मे शुध्यन्ताम् ज्योतिरहम् विरजाविव आत्मा भूयाजस्वाहाणमेतो बुद्ध्यागोरिः सङ्कल्पा मे शुध्यन्ताम् ज्योतिरहम् मिलनाविव आत्मा भूयाजग्रस्वाहा स्वकर्मभागम् सर्जनमेदो मृद्या स्नायवो स्थीय मे शुध्यन्ताम् ज्योतिरहम् मिलनाविव आत्मा भूयाजस्वाहा शिरः पाणिपादपादरजङ्घकृष्णोपस्थपायवशुध्यन्ताम् योजनहम् विरजामिव आत्मा भूयासज्ञस्वाहाङ्गलोक्षिदे शुध्यन्ताम् योजनहम् विरजायव आत्मा भूयासज्ञस्वाहा दृथिव्यापस्थेजो वायुरागाजामे शुध्यन्ताम् योजनहम् विरजायव आत्मा भूयासज्ञस्वाहा शब्दस्पलसलोपलगणला मे शुभ्यन्ताम् ज्योतिरहम् व्यरजामिव आत्मा भूयाशग्ग्रस्वाहा मनोवाक्कार्यकमे शुभ्यन्ताम् ज्योतिरहम् व्यरजामिव आत्मा भूयासज्ञस्वाहा अव्यक्तभावेरहङ्कारेरहम् व्यलजामिव आत्मा भूयासग्ग्रस्वाहा आत्मा मे सिभ्यन्ताञ्ज्योतिरहम् व्यरजामिव आत्मा भूयासग्ग्रस्वाहा अन्तरात्मा मे शुभ्यन्ताम् योजिनहम् विरजानि वा आत्मा भूयाजज्ञस्वाहा परमात्मा मे शुभ्यन्ताञ्जोजिरहम् विरजामि वा आत्मा भूयाजज्ञस्वाहा स्वाहा क्षुत्पिपासाय स्वाहा विे स्वाहाधानाय स्वाहा पशोत्काय स्वाहा क्षुत्पिपासा परम्येषामलक्ष्मीर्नाशगाम्यहम् भ्यञ्जतमेव आत्मानज्ञ स्वाहा अन्नमय प्राणमय मनोमयविज्ञानमयमानन्दमयमात्मा मेरुभ्यन्ताम् ज्योतिराम् विरजामिव आत्मा भूयानज्ञ स्वाहा अर्णये स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा ध्रुवाय भौमाय स्वाहा ध्रुवक्षितये स्वाहा अच्युतक्षितये स्वाहा अग्ने स्वाः धर्मा यस्वाः अधर्मा यस्वाः अभ्यस्वाः पोषविवनःपदेभ्यस्वाः रक्षोदेवजनेभ्यस्वाः गृह्याभ्यस्वाः अवसानेभ्यस्वाः अवसानपदेभ्यस्वाः सर्वभूतेभ्यस्वाः कामा यस्वाः अन्तरिक्षाय स्वाहा स्वाहा अन्तरिक्षाय स्वाहा दिवे स्वाहा सौर्याय स्वाहा चन्द्रोदे स्वाहा नक्षत्रेभ्य स्वाहा इन्द्राय स्वाहा बृहस्पतये स्वाहा प्रजापदये स्वाहा स्वाहा स्वाहादये स्वाहा देवेभ्य स्वाहाभ्यो नमः मनुष्येभ्यो हन्ताः प्रजापदये स्वाहा परमेक्षिणे स्वाहा यथा कोपश्च सहस्रधारोक्षिरः एवामे अस्तु सहस्रधारोक्षिरम् धन धान्ये स्वाहा हे भूताः पुनरन्ति बलिमिच्छन्तो विदुरस्य प्रेष्याः केभ्यो बलिम् वृष्टिकामोहरा स्वाहा ओम् तद्ब्रह्म ओम् तद्वायुः ओम् तदात्मा ओम् तत्सत्यम् ओम् तत्सर्वम्पुरोर्नमः अन्तश्चरति भोजेषु गुहायाम् विश्वमूर्तिषु वैयज्ञस्कम् वषट्कारस्तमिन्द्रस्तकम् वज्रस्तम् विष्णस्तम् ब्रह्मत्वम् प्रजापतेः पन्तनामहापोहज्योतीरसोमथम् ब्रह्मभोद्भवस्तुपदम् श्रद्धायाम् प्राणेन श्रद्धायाम् पानेन श्रद्धायाम् यानेन श्रद्धायामुदानेन विष्टो अमृतम् जहोमि श्रद्धाया सन्दनेन विष्टो अमृतम् जहोमि ब्रह्मणि महात्मामधत्त्वाय अमृता श्रद्धायाम् प्राणेन विष्टोमृतञ्जहोमि शिवो मा विशात्मदाहाय प्राणायस्वाः श्रद्धायामपानेन विष्टोमृतम् जहोमि शिवो मा विशात्मदाहाय अपानायस्वाहा श्रद्धायाम् ज्ञानेन विष्टामृतञ्जहोमि शिवो मा विशाप्रदाय ज्ञानायस्वाहा श्रद्धायामुदानेन विष्टो मृतञ्जहोमि शिवो मा विशाप्रदाय उदानायस्वाहा श्रद्धायाम् समानेन विष्टा मृतञ्जहोमि शिवो मा विशाप्रदाय समानायस्वाहा ब्रह्मणि महात्मापदत्ताय अमराभिधानमधे श्रद्धायाम् बाणेन विश्यामतकम् हुतम् प्राणवन्नेनाप्यायस्व श्रद्धायाम बाणेन विश्यामृतकम् हुतम् अवानवन्नेनाप्यायस्व श्रद्धायाम् यानेन विश्यामृतकम् हुतम् ज्ञानमन्नेनाप्यायस्व श्रद्धायामुदानेन विश्यामृतकम् हुतम् दानवण्डेनाव्यायस्व श्रद्धायागम् समानेन विश्यामृतकम् हुतम् समानमन्नेनाप्यायस्व अङ्गुष्ठमाद्रः पुरुषोङ्गुष्ठम् च तमाश्रितः एष सर्वस्य जगदप्रभुप्रेणादिविश्वभुग वात्रम् बाहुवोर्बलम् अरिष्टाविश्वाण्यङ्गायोः नमस्तेऽस्तु वा वयस्वर्णापुरेन्द्रम् प्रियमे धारिणयो नाशमानाः मध्यस्मानिरशरुद्रोमाय विष्णवेष्टमासु लक्षमभ्यस्तमश्मनस्परे पम्बनेभ्यस्तमाणधेभ्यस्तम् नृणान् नृपदेजाय जयश्निः शिवेन मेधन् देक्षस्त्वशोनेन मेघन्वनुभोजेन मेघन्ध्येष्ठश्वस्वब्रह्मवक्षसेन मेधन् ज्यक्षस्व यज्ञस्य अध्यमृदन्दिच्छस्थोपदेयज्ञणमौपदेन भवते नमः सत्यं परम्परगुं सत्यगं सत्यै सुवर्गान् लोकाच्च वन्द्रे घटाधृशता सत्यं तस्मात् सत्येन मन्द्रे तैदितपोनात् परं यद्धि परन्तस्तद्वर्षं तद्दुराधर्षं तस्मात्तमशिलमन्दे तैलयनं ब्रह्मचारिणस्तस्मात्तमेल मन्त्रे शमैत्यरण्डस्तस्माच्छमेन मन्द्रे धानमि सर्वाणि भूतानि प्रजगं सन्ति जानान् न्दस्मा धानेन मन्दे धर्मैर्धर्मेण धर्मन्दस्मा धर्मेण मन्दे प्रजनैर्भो यागं भोयष्ट प्रजायन्देरस्मात् भूयष्टा प्रजनने रमन्ते अग्नित्या हरस्माग्नयाग्निहात्र हरस्मादग्निहात्रे रमन्ते यज्ञै यज्ञोभिदेवास्त मानसमिति विद्वागुम् सस्तस्माद्विद्वाघुम् स एव मानसेलमन्ते न्यासयति ब्रह्मा ब्रह्मा इव रक्प्रलो हि ब्रह्मा वेदान्यपरायवरागम् सन्न्यासये वा िणस्तु वर्णेय प्रजापतिम् पितलमुपसारम् भगवन्तः परमम् वदन्ति नित्यो रोचते दिभि सत्यम् प्रतिष्ठा सत्ये सर्वम् सत्यं परमं वदन्ति नेवा देवतामग्रान्तराधेष्टवर्वाम् न्द्रमे सर्वं प्रतिक्षिदन्तस्मात्तमः नागं मुनजोन्मविन्दूतानां दुराधरिणं छमे सर्वं प्रतिक्षिदन्तस्मात् क्षम परमं वदन्ति दाने यज्ञानां दक्षिणा लोके दातारम् अदर नगो तै ीवन्ति दाने आरादेव भवन्ति दाने सर्वम् प्रदक्षिदन्तस्मा दानम् परमम् वदन्ति धर्म विश्वस्य जगदप्रतिष्ठा लोके धर्मे प्रजा उपधर्मन्ति धर्मेण पापमपनुदति धर्मे सर्वम् प्रदक्षिदन्तस्मा धर्मम् परमम् वदन्ति प्रजनम् वै प्रतिष्ठा लोके साधु प्रजायान्त भवति र्गस्य लोकस्य ज्योतिस्तस्मा जन्ति यज्ञ इति यज्ञेन हि देवायवङ्गता यज्ञेनासुरानपानदन्त यज्ञेन भवन्ति यज्ञेन सर्वं प्रदक्षिलन्तस्मा यज्ञम् परमं वदन्ति मानसं वै प्राजापत्यम् पवित्रम् मानसेन मनसाय मानसा प्रजान्त मानसे सर्वं प्रदक्षिलन्दस्मानसम् परमं वदन्ति न्यासयत्याहुर्म ब्रह्माणम् ्रह्माभिष्टमस्त्वयं प्रजापरिसंरुढस्तबलमेष्ठे ब्रह्मात्मायाभिरायत्यस्तरस्त्यस्ताभिः पर्जन्यामरुषधि पर्जन्येन औषधिवनस्पदक प्रजायन्दोषधिवनस्पन्नम् भवत्यन्येन प्राणा प्राणेर्बलं वलेन तमस्तमसा श्रद्धा श्रद्धया मेधा मेधया मनीशा ्रान्त्या चित्तम् चित्तेन स्मृतग्रस्मृत्यास्मानग्रस्मानेन विज्ञानम् विज्ञानेन आत्मानम् वेदे युतस्मादन्न सर्वा नेतानि तदात्यन्ना प्राणा भवन्ति भूतानाम् प्राणेर्म नामनदर्श विज्ञानम् विज्ञानादानन्ता ब्रह्मयोनिश्चेण पुरुण पञ्चधा प्राणे त्वमसिरन्धा न्द्रमधो यामगे रामभदवो मित्यात्मान युञ्जयन् देवानाञ्जोक्यञ्जलेवम् वेद ब्रह्मणा महिमानमात्मनो तस्मात् तस्यैवं विदुषो यज्ञस्यात्मानश्रद्धा पत्नमोदशिखास्तमाज्ञा दक्षिणाघोरा प्राणमुदायकृ ब्रह्माश्रोत्तरमग्ने य विषत्युत् सायं प्राद्रादर्कं सायञ्चत्रे वजुबन्धा वत्सराश्चपरिवत्सराश्चेहर्गणाश्च देवानामेव महिमानङ्गत्वा नित्यस्य चायुज्यं गच्छात्यक्षिणे प्रमेय देवनामेव महिमानम् गत्वा चन्द्रमहस्यायुज्यगं सदा गदामाप्नो वेधो चन्द्रमसा महिमानौ ब्राह्मण स्मात् ब्रह्मणा महिमानवेद्यपनिषत् सह न भवतो सह नौ भुनक्तो सह वेर्यङ्करवाहे एतस्विनापथीतमस्तु माविद्विषावहे ओम् शाम् निःशाम् निःशेऽभ्यै नमो नमाप्याय हरियो वर्धमानः यदा स्तोदभ्यामहि पात्राभो यष्टभागम्याम ब्रह्मप्रामायष्पदन्न ओम् शान्ति हरिः ओ आरण्यः समाप्तः